ष्टप्रत्यष्टादयत्याह रक्षसामहत्ये अग्नेर्मस्तेजिष्ठेण तेजसा निष्टपा मे इत्याहमेवार्थे शुभमग्रे वासमेवाभ्यस्तस्यति विशत्वाय अथ जुहो अथोपक्षतम् अथ जुवान् असौ मेजुहोः अन्तरिक्षमुपभृत् पृथिवेद्रुवा इमे वै लोकाः श्रुतः दृष्टिः सम्मार्जनानि दृष्टिर्वा इमाल्लोकान् पूर्वम् कल्पयति ते धन क्लुप्ताः समेधन्ते समेधन्तेऽस्मा इमे लोकाः प्रजया पशुभिः यदेवम् वेदामयदवर्षकपर्जन्यस्यादिरे अवाचीनाग्राहि वृष्टिः यदि कामयता वरुषकस्याग्रे मौलतः संवृज्यात् वृष्टिमेवाग्यच्छति तद्वा आहुः अग्रत एव वरुष्टात् संवृज्यात् मौलताधस्तात् तदनुपूर्वम् कल्पते वर्षकाभवदेते प्राचीमभ्याकारम् अग्रेरन्तरतः एवमिवह्यन्न मद्यते अथोग्राद्वोटधे नामोर्जम् प्रजा उपजीवन्ते ओर्जयवान्नाद्यस्यावृद्ये अधस्तात्पते दण्डमुत्तमतः मूलेन पुण मूलम् प्रतिष्ठित्य तस्मादत्नौ प्राष्टालोमाने प्रत्यञ्चधस्ताहात् सुघेयः प्राणो वै स्तुवः दुभादक्षिणाहस्तः उपभृत्सव्यः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 यगेवम् वेद दिवः शिल्पमवदम् पृथिव्याः कुभिश्रतम् तेन वयम् सहस्रबलिशेन सपत्नम् नाशयाम यस्मा हेतुस्वक्सम्मार्जनान्यज्ञाप्रहये आपोगे दर्भाः रूपमेवैषा वेदन्महिमानम् व्याजष्टे अनुष्टुभश्च आनुष्टुभः प्रजापतिः राजावत्यो वेदः हेतस्याग्रग्रस्वक्संमार्जनानि देवतया समर्थयति अथोरुग्भावे करोति प्रजननाय प्रचारिते प्रजया न तत्प्यक्कम् अभ्यर्मा चेत्करेण्यस्यत्राहुतेभ्यः सन्तिष्ठते उत्करो वादस्य प्रतिष्ठा एतावितस्मै प्रतिष्ठाम् देवाः समहरन् यदभ्यर्माद्रियते तेन शान्तम् यदुत्करेण्यस्य प्रतिष्ठामेवैना यतद्गमयते अतिष्ठति प्रजया अथो स्तम्बश्च वा एतद्रूपम् यत्सृक्सम्मार्जनानि स्तम्बशो वा वोढधयः प्रासाञ्जलत् रक्षे पशवो नरवन्दे अप्रियवाक्येताञ्जलक्षः यावदप्रियो हवेजरक्षः पशूनाम् तावदप्रियपशूनाम् भवति यस्यैतान्यत्राज्ञेर्दधते नभदाव्याधबावोढधे पशवोनवन्दे नवदामो येषाम् प्रियः यावत्प्रियो भवे नवदामः पशूनाम् तावत्प्रियः पशूनाम् भवति यस्यैतान्यज्ञो प्रहरन्ति तस्मादेतान्यज्ञामेव प्रहरेत् यतरस्मिन् संवज्जात् पशूनाम् धृत्यये युवभूतानामधिपतेः तद्रस्तन्ति चाः पशूनस्माकम् वाहि पुंसेः एतदस्तु हुतन्तपस्वाहेतज्ञमार्गाङ्ग्यग् प्रहरति एजावा यदेधा नियोनिः एजा प्रतिष्ठा स्वामेवैनानियोनिम् स्वाम् प्रतिष्ठाङ्गमयते प्रजयामुजमानः अयज्ञो वा एषः एव पत्नीकः न प्रजा प्रजा एनन् पत्न्यम् वा यज्ञमेवागः प्रजानाम् प्रजननाय यत्तिष्ठन्ते सन्नह्येत व्याम् ज्ञादिकम् ब्रन्ध्या आधीना सन्नह्यते आधीनाश्येता वेद्यम् करोति यत्पश्चात्प्राच्यन्वासीत अनया समदम् दशीत हेवानाम् भक्नया समदन्तशीतौ दे चन्वाहास्ते आत आत्मनोधाय आशासानासौ मनसमित्याह नेभ्यामेवैना केवलीम् कृत्वा आशिषासमर्थ्यते अज्ञैर्मम् हृता भूत्वादन्न कृतायनमित्याह एतद्वैपत्र्ये वृतापनयनम् तेनैवैनामृतमुपणयति तस्मादाहुः यश्चैवम् वेदयश्च नयते यमन्वास्ते तस्यामुष्मिल्लाकेहवीर्योक्त्रेण यद्योक्त्रम् स योगः यदास्ते सक्षेमः योगक्षेमस्य कृते वृत्तम् क्रियाता आशेः काव्ययुज्याता इति आशिषः समर्थ्ये ग्रन्थिम् ग्रन्थनादि आशिषेवास्याम् परिग्रन्थादि ग्रन्थिः स्त्रीपत्नी तन्मिथुनम् मिथनमेवासद्यज्ञे करोति प्रजननाय प्रजायते प्रजया बुद्धिर्विजमानः अथो अर्थो वा एषः आत्मनः निर्पत्नीः यज्ञस्य धर्जािसरम्भावाय सुप्रजतस्त्वायकम् सुपत्ने नृपसेमेत्याह यज्ञमेव तन्मिथने करोतिरिक्तम् ध्येयातानि प्रजामया स्वर्धे नागुणसहित्याः स्यैतन्महिमानम् महिवानं तस्य क्षीयमाणस्य निर्पपामिदेव विद्याय इत्याह आशुजमेवैतामासाश्च घृतम् च वैमसुज प्रजापजलासे पदः प्रजा तरस्तान्मसुज प्रचलनमिवास्ते तरस्तान्मसुषा न प्रचलन्ति यातयामहि आज्य न प्रचलन्ति यज्ञो वा आज्ञम् यज्ञेनैव यज्ञम् प्रचलन्तयादयामत्त्वाय पत्न्यमेवेक्षते विशनत्वाय प्रजा आद्ये तद्वे पत्नी यज्ञस्य करोति विशनन्त अथो पत्न्या एव यज्ञस्यान्वारम्भो न मच्छति अमेध्यम् वा एतत्करोति यत्पत्न्यवेक्षते गार्घवत्येभ्येजमेध्यत्वाय आहवनीयमभ्युद्रमते यज्ञस्य सन्दत्यै तेजोतेजो नुप्लेहेत्याह तेजोमा अग्निः तेजाज्य तेजसेवतेजः समर्थ्येते अग्निस्तेजेजोमापि नेदित्याहाहिगुम् साधे स्थस्य ने वक्नम् साधयते यज्ञस्य सन्दत्ते अग्ने जग्वादि सुभावानामित्याह यथा इदेवैत म्ने देवेऽभ्युले भवेत्याः आशिषमेवेतामाशास्ते तद्वादपवित्राभ्यामेवोऽनाति यजमानोपाज्यम् प्राणापानो पवित्रेः यजमान एव प्राणापानो दधाति पुनराहारम् एवमिभिः प्राणापानो सञ्चरतः शुक्रमसृज्योति रसि स्येतन्मभिमानम् व्याकष्टेहामाप्तेः अथो मेऽध्यत्वाय अथाजवदेभ्यामवः रूपमेवासामेतद्वर्णन्दधाति अपि लावुता यथा हवै या सुबन्धकम् हिरण्यम् पेतलम् बिभ्रते रूपान्यास्ते एवमेता एतदिहेते आपोपे सर्वा देवदाः एडाविश्वेदान् देवालान्धनोः यदाज्यम् तत्रभयाने जामि जा जा स्यात् विधाज्यपुनीया छन्दसामवत्पुनात्विजावित्त्वाय अथोमिच्छत्वाय सावित्र्यच्च सवितप्रसूतम् मे कर्णा सति सविदर्भूतमेवास्य कर्मभवजे पच्छोकाय त्रया कृष्वध्यत्वाय अद्भ्यते ओषधे सन्नहिते ओषधेषुक्वशोन् अशुभियजमानम् शुक्रन्ताशुक्रायाञ्ज्योतिस्वाज्योतिष्वक्तित्वाक्रियेत्याः धर्मत्वाय पर्यानन्तरायाय देवासुराः संयत्ताः सन्मिन्द्रहाद्यस्यावकाशमपश्यत् तेनावैयेक्षत ततो देवाभवन् पराधुराः एवम् विद्वानाज्यमपेक्षते भवत्यात्मनाः वराः स्यभ्यादुर्या भवते ब्रह्मवादिना वदन्ति राज्ये नान्यानि अवेगस्यभिघारयते अशनेनाद्ये सर्तेनैव ब्रूया चक्षुर्वै सत्यम् सर्तेनैवेन तभिखारयते ईश्वरो वा एषो बन्ध भवितो यश्चक्षुषाद्यमवेक्षते निमेल्यावेक्षेत धाधारात्मम् चक्षुः अभ्याज्यम् धारयते आद्यम् गृह्णाति छन्दागम् दिवाज्यम् छन्दागस्येव प्रीणादि चतुर्जुक्वान् गृह्णाति चतुष्पादः पशवः पशूनेवावृन्थे अष्टावुपभृ अष्टाक्षरा गायत्रे गायत्रः प्राणः प्राणमेव पशुर्दधादे चतुर्ध्रुवायाम् त्रःपशवः पुरुष्वेव परिष्टात्प्रतिष्ठते यजमानदेवत्यादे जोः भ्रातुर्वदेवत्यपभृजे चतुर्जुह्वान् जो गण्ठम् भूज गृह्णीयात् अष्टावपभर्गृह्णम् गणीयः यजमानायैव भ्रातुर्यमस्तीम् करोति तर्जिह्वान् गृह्णादि तस्माच्चतुष्पदे अष्टावुपभुरे तस्मादष्टाशभायाः तस्माचतुस्तना गा मे मदत्सर्गस्करोदे सार्गस्कृते षमोर्जन्द्रहे यज्जह्वान् गृह्णादे प्रयाजभ्यस्तदे यद्पभे प्रयाजानो याजभ्यस्तदे सर्वस्मै वा एतद्विज्ञाय लक्ष्यते यामाद्यम् आपो देवीरग्रेरुवाहरूपमेवादामेतन् हिमानम् जायष्टे अग्रयमञ यज्ञन्नयताग्रे यज्ञपदिमित्याह अग्र एव यज्ञन्नयन्ते अग्रे यज्ञपतिम् युष्मानिन्द्रवृणेतवृत्ततोर्ये यौर्यमिन्द्रमगेभ्वम् वृत्रतोर्य इत्याह वृत्तगम्भह्यन्निन्द्रापो वव्रे आपो हेन्द्रम् वव्रे सञ्ज्ञामेवासामेतत्सामानम् व्यायष्टे प्रोक्षिताश्चेत्याः तेनापप्रोक्षिताः अग्निर्देवेभ्यो निलायत कृष्णो रामम् कृत्वा स वनस्पतेन् प्राविशते कृष्णोष्ठास्माहेत्याह अग्ने एवैनन्त्यष्टम् करोति अथवा अग्नेरेव मे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 जापुरस्ताः प्रत्यजम् ग्रन्थिम् प्रत्यक्षते प्रजा वै बहिः यशासौक्त्यै कालाः पुरस्ताद्यन्ते तादृशे वतते सुधा विदर्भ्यगित्याः सुधाकालभिटनाम् ओर्भवपरिगिक्षिणागेत्तरस्य निर्णयतिसन्दत्यै मासा वै वितरापरिगितः मासानेमत्रेनादे मासाोटे वर्धयन्ते मासाः पचन्दि अनजस्कन्दयः वर्जन्या वर्णते एते ओर्जाथिवेक्षतेत्याह पृथिव्यामेवोर्जन् दधादे तस्मात् पृथिव्यावोर्जा भुञ्जते दे। ग्रन्थिम् विश्रगम् दैदे प्रजनेत्रे भजते ओर्ध्वम् प्राञ्चमुद्गूढम् प्रत्यम् प्रतीचे प्रजायन्ते विष्णास्तोपवसेत्याह यज्ञावै विष्णवः यज्ञश्र्यैः पुरस्तराः आत्मस्तरम् ग्रन्हादि मुख्यमेवनम् करोति यन्तम् ग्रन्हादि प्रजापतिना यज्ञमुखेण संवितम् यन्तम् ग्रन्हादि यज्ञपुरुषा संवितम् यन्तम् ग्रन्हादि एतावद्वे पुरुषवीर्यम् वीर्यसंवितम् अपरिमितम् गृह्णाति अपरिमितस्यावरुद्धे तस्मिन् पवित्रे अभिसृजति यजमानो मयि प्रस्तरः प्राणापानो पवित्रे यजमानगेव प्राणापानो दधाति ओर्णाहम् प्रसन्त्वास्तृनामेत्याहुरेवेतत् स्वासस्थम् देवेऽभ्य इत्याह देवेऽभ्यदेवैतत्स्वासस्थम् करोति बहिस्तुनाते दे, दे, प्रजावे बहिः पृथिवी वेदेः प्रजा एव पृथिव्याम् प्रतिष्ठापयते अनदृष्टग्रस्तुनादे प्रथयेनम् पशुभिरणदिदृष्टम् करोति धारयन् प्रस्तरम् प्रस्तरः यजमान एव तत् स्वयम् परिधेन् परिदधाते सन्धर्वो यजमाने ज़िज्वा ज़िज्वा दधाते इन्द्रस्य बाहुलक्षिण इत्याह इन्द्रियमेव यजमाने दधादे मित्रावर्णो त्तोत्तरतः प्रतिधत्तामित्याह प्राणापानौ मित्रावर्णौ प्राणापानावेवास्मिन् दधादे सूर्यस्ता पुरस्ताः त्वा स्मित्याह रक्षसामवहत्ये कस्याः शिरभिरस्यामित्याह अपरिमितादेवैनम् पादे वेजहोत्रत्वाकमहित्याः अग्निमेवहोत्रेण समर्थयते हिमन्तम् समिधे महेत्याः समिध्ये ज्ञे वृषन्तमध्वरैत्याः वृद्धेः विषोयन्त्रेष्ठैत्याः विषाञत्यैः उदीचीनाः अग्रे निधारिप्रतिष्ठित्यै असौ नागम् वृद्राणामादित्यानागम् देवतानामेवनगम् सादेते जुहोरीनाम् नेत्याः असौमे जहोः अन्तर्क्षमथेध्वा सामेतदेव प्रियम् नाम यद्भिदादे यद्भिदायेत्याह प्रियणैवैनाम्ना सादेते एतासदाम् सुकृतस्य लोकेत्याह सत्यम् वे सुकृतस्य लोकः सत्य एवैनाः सुकृतस्य लोके साधेदे सा विष्णा बाहेत्याह यज्ञा वे विष्णुः यज्ञस्य श्रुते बाह्यज्ञम् बाह्य यज्ञवलिम् यज्ञा या यजमानायात्मनेः एभ्यदेवासास्तेनात्ये अग्निना वैहोत्रा देवाधुरानभ्यभवन् अङ्गया तमिथ्यमानायानुब्रूहेत्या अभ्यातुर्व्यापिभूक्ते एकविंशतिमित्वदारोणि भवन्ति एकविंशोऽपि पुरुषः पुरुषस्याप्तेः विंशतिशे पञ्चदशवार्धमासस्य रात्रयः अर्धमासः संवत्सराप्यदे अनुयागेऽभ्यः समिधमधिष्ये षट्सम्पद्यन्ते षड्वादवः प्रेणादे वेदेवोपवादेते राजापत्यो वे वेदः राजापत्यप्राणः यजमानाः वनीयः यमान एव प्राणम् दधाते त्रिवहारयते प्रयो वे प्राणाः प्राणानेवास्मिन् दधाते दे, वेदेस्रुवेण प्राजापत्यमाघानमाधारयते यज्ञो वे प्रजापतिः यज्ञमेव प्रजापतिम् खद आरभते अथवा प्रजापतिः सर्वा देवताः सर्वानेव देवताः प्रीणाते दे, अग्निमज्ञेशः दे समृद्धेत्याह क्रियावृद्धियज्ञः अथो रक्षता उपहद्ये वर्धेयन्सम्माे क्रियावृद्धियज्ञः अथो मे ध्यत्वाय अथो ये देवै देवाश्वाः देवाश्वानेव तत्सम्माहाष्टे स्वर्गस्य लोकस्य समग्रे आदीनान्यमाघारमाघारे ते तिष्ठन्नन्यम् यथा नो वार्थम् एव विन्द्यात् एवमेव तदद्धर्यज्ञम् नक्ते स्वर्गस्य रागस्य वहन्तेन राम्याः पशवः य वेदा भुवनमथविप्रथस्य यज्ञावे भुवनम् यज्ञेव यजमानम् प्रदया पशुभिप्रसेदे अर्ज्ञेयष्टरिदन्नमयित्याः अर्गर्वे देवानाञ्जष्टाः य एव देवानाञ्जष्टाः तस्मादेव नमस्करोति जिह्वादेव यज्ञायापभदेस्तादित्वयज्ञायादित्याह आज्ञेयैवजुः सा वित्रिरो ताभ्यामेवै न प्रसोदादत्य अज्ञाविश्व मामनक्रमिशमित्याह अज्ञः पुरस्ताद्वयज्ञः पश्चात् ताभ्यामेव प्रतिप्रात्या मासन्ताः तमित्याः हि गुञ्जायि लोकम् मे लोककृतो गुणतमित्याः आश्रितमेवेतामासानभयेत्याः यज्ञा वे विष्णः एतत्खल वे देवानामपराजतमायतनम् एतेज्ञः देवानामेवापराजितः यतने तिष्ठते त इन्द्र अगुणाद्वेर्यानेत्याः इन्द्रियमेव यजमाने तथा चे समारभ्योऽर्ध्वाध्वरादिविश्वसमित्याः वृद्धेः आधारमाधार्यमाणमनुसमारभ्य एतस्मिन् काले देवास्वर्गम् दाकमायन् साक्षादेव यजमानस्तु वर्गम् दाकमेते अथवा समर्थेनैवेन यजमानस्वर्गम् दाकमेते अहृतो यज्ञो यज्ञपते नित्याहनान्स्वाहेत्याह इन्द्रियमेव यजमानेन धादि बृहद्भा इत्याह सुवर्गो वे लोको बृहद्भाः स्वर्गस्य लोकस्य समष्टे यजमानदेवत्यावेजुः भ्रातव्यदेवत्योपभज प्राणाधारः यत्सर्गस्पर्शय भ्रातृयेश्च प्राणन्दध्याय असर्गस्पर्शय नत्याक्रामदे यजमान एव प्राणन्दसादे पाहिमाः मे दुश्चरिता मा भजे इत्याह पवित्रम् अस्मादेवमाशास्ते आत्मनाय शिरो एतद् यदाधारः आत्मा ध्रुवा आधारमाधार्य ध्रुवाकम् समनक्षे आत्मन्नेव यज्ञस्य प्रतिदधाते दो हि प्राणापादौ तदािरे शिरयवेतद्दे प्राणाः प्राणानैवास्मिन् दधाते मदक्षिरोध्योतिषाद्योतिरङ्गामित्याह ज्योतिरेवास्माष्टाद्दधाते स्वर्गस्य लोकस्यानिख्याद्ये एते न्यप्यन्ते यद्ब्रह्मा यद्भवता यदध्वर्यः यदग्ने यद्विजमानः तानिरन्तरेयाजमानस्य प्राणान् सङ्कर्षेत् प्रमायुकस्याध्वर्यः यजमाना एवम् लावम् निन्धते नास्य प्राणान् सङ्कर्षते न प्रमायुको भवति पुरस्ताः प्रत्यङ्गाशेन पिडाया इडामादधाते दिदा हस्त्यागृह्मात्रे पशववा इदाः पशवः पुरुषः पशुष्टापयते पिडायैवा एषा प्रजाते तान् प्रजाते यजमानान् प्रजायते पर्वणाः यजमानप्रतिष्ठत्यै सगतवस्त्रनादे निरादधादे सकृदभिकारेते दुःसम्पद्यते सत्त्वारि वै पशो प्रतिष्ठानानि यावानेव पशुः तमुपक्वयते मुखमिव प्रत्यपक्वयेत सम्मुखानेव पशोनुपक्वयते पशोमायिनाः तस्मात् सान्वारभ्याः यजमाने चानीत्याह्ये भोक्त देहोदाः इडायै देवतानाम् भावे होदप्पशुमान् भवति एवम् वेद याम् वेहस्यामिडा मातधादे वाचस्ताभाकथेयम् यामुपक्वयते प्राणानागुंसा वाचम् चैव प्राणाकष्टावरुन्धे अथवा एतयामिडाया प्रोडासेव मे मा पुंसा यजमानन्देव अब्रुवन् अविर्नानिर्वचयते नाहभागो निर्वक्ष्यामेत्यम् ब्रवे न मया भागयानुवक्ष्यतेति भागब्रवेद नाहमभागा पुराणुवाक्या भविष्यामीति पुराणुवाक्याः नाहमभागायाज्या भविष्यामीति याज्ञाः न मया भागेन वषट्करक्ष्यते वषट्काः यद्यजमानभागम् निधाय पुराणादम् परिहृतम् करोति तानेव तद्भागिनः करोति ेव प्रतिगच्छति बलिभिम् करोति विदमानावे पुरोडाशः प्रजापरिहे विदमानमेव प्रजासत्प्रतिक्षापयते तस्मादस्नान्याः प्रजाप्रतिगच्छन्ते मांसेनान्याः अथवा कल् दक्षिणा वा एतावलस्याः तत्पुरोडाजम् बलिभिनम् करोति लब्धागलोके तत्तारोग्यः ब्रह्माहोदाध्वर्यलग्ने सौम्येभ्यो दक्षिणाया दधाति अग्निमुखाख्ये अन्यमुखामेव सम्पद्यन्ते षड्वा ऋतवः ऋतो नैव वेदेन ब्रह्मणे ब्रह्मभागम् परिहरे राजावत्यो वे वेदः राजावत्यो ब्रह्मा सविता इत्यस्य सर्पसो भवत्यै स मध्यम् वा एतद्यज्ञस्य यत्प्रोताः पथ्यत एव यज्ञम् प्रेनादे असा ध्वर्यवेव स्रष्ठा वा एता यज्ञस्य एतद्धर्यो तस्माः तथैव यज्ञस्य एतामेवावधमनो अन्यालक्षणानि युन्ते यज्ञस्य प्रदक्ष्यते अग्निमग्ने सगत्सत्सम् रक्षेत्याह यज्ञः क्षिताद्रियवाच्यावाकायोक्ता ब्रोहे आेदा सुगा ये तस्र्मा आशुषमे वेदास्तूत संयमेव वागत्पत्यम् वा गेयेण समर्थयते अतस्तनष्टुभ्याम् वाजवदेभ्याम् व्योहदे प्रतिष्ठावाहनष्टुके अन्नम् वाजः प्रतिष्ठत्ये अन्नाद्यस्यावरुध्ये राजेयम् जहोमोहते जातानेव भ्यादुर्व्यान् प्रणुदते प्रदे चेभृतम्नानेव प्रचनुदते सविषोज एवापोह्यसपत्नान् यजमानः अस्मिन् लोके प्रतिष्ठते द्वाभ्याः द्विप्रतिष्ठो हिभ्यस्ता रुद्रेभ्यस्ता इत्येभ्यस्मेत्याह यथा यदि सूक्ष्मप्रस्थामनक्ते इमे वे लोकासृजः यजमानप्रस्तरः यजमानमेव तेजसा लोकाः एभ्यदेवेन लोकेभ्यो नक्ते अभिपूर्वमनक्ते हरिपूर्वमेव यजमानम् तेजसानक्ये अतगम् ऋहाणादित्याहोवानः ते प्रस्तरः यजमानमेव तेजराणक्ये लियम् ते ते द्वयैत्याः प्रदेणम् धृत्वा स्वर्गम् लोकम् गमयते प्रजाय्य निम्मानवृक्षमित्याह प्रजायै गोशाय आप्यायम् तामापवोषधैत्याः आपदेवोषधैराप्यायते मरुतामृदयश्चेत्याह मरुतो वे वृष्ट्यादीषद वृष्टिमेवावृन्धेरङ्गक्षिमे वजेत्याह वृष्टिर्वेद्योऽहम् वृष्टिमेवावृन्धे यावद्वा ध्वैर्यप्रस्तरम् बृहदे तावदस्यायुर्मे यदे आयुष्पाज्ञेस्यायुर्मे वाहेत्याह आयुरेवात्मन्धत् यावद्वा ध्वैर्यप्रस्तरम् रजे तावदस्मीले चक्षुष्पाग्ने चक्षुर्मे बाहेत्याह चक्षुरेवात्मन्धत्वे ध्रुवादेत्याह प्रतिष्ठिते यम् परिच्यम् वर्यसत्था इत्याह यथा इति अग्नेरेव मणिभिमाण इत्याह अग्नेण न्युष्टम् करोजे परम् तजेतमनजोषम् भरामेत्याह सजाता देवा स्वानुगानम् याः नक्षा यज्ञस्य पाधौ प्रथमिदमित्याः भोमानमेवोपैदे वर्धेयन् प्रहरते यज्ञस्य समित्ये सुतसंप्रस्रावेदे तत्र क्लोणम् अर्पेण समयते जिह्वामुदम् यजमानदेवत्या वेजुः भ्रादेवदेवत्यापभदमाना एव भ्रालम्यमपस्तिम् करोति सर्गस्रावभागाश्चेत्याः स्वभावे रुद्राः इत्यासर्गस्रावभागाः एका दद्भागेयम् एवम् प्रेणादे वैश्वर्चाः एते दे विश्वे देवाः पृष्टग्भवति दे, इन्द्रियम् वै तृष्टु इन्द्रियमेव यजमाने तथा अग्नेर्वामन्नग्रहारयामि इत्याह इयम् वा अग्निरमन्नग्रहः अस्यायेव नेता सुम्नाय सुम्नेषुनेमाधत्यमित्याह प्रजा मे पशवः सुम्नम् प्रजामेव पशू नात्मन्धत्रे सर्योपादमित्याहत्यापीठाय अग्नेदब्धायौषेत नामित्याह यथा येतदे पाहि माहि प्रसिद्धे पाहिदृष्टे बाहि दुरद्मन्ये बाहिद्याः पाहिदमेव अभिरङ्गभ्यासाय फलीकरणहोमञ्जु अतिरिक्तानि वायुर्वलम् वृश्चनानि अतिरिक्ताः फलीकरणाः अतिरिक्तमाद्योच्छरणम् अतिरिक्तये वारिक्तम् दधादे अथो अत्रा वृन्दे वेददेवेभ्यो निजाविन्दन् वेदेशे पृथगे पार्थिवाने गर्भम् विभक्तिभवने स्पन्तः पुनस्ता वेदे अथ वेदश्च वेदश्च भवतः य प्रजाः दे। प्रजापतेर्वा एता निष्पश्रूणि यद्वेदः पत्र्यापस्थास्य विचलमेव करोति विन्दते प्रजा वेदगुम् होताः यज्ञमेव वे तत्सन्तनाक्तोत्तरस्मादधमासाम् सन्तनमुत्तरे अर्थमासा लभते कालागजे विगजे ब्रह्मवाजिना वदन्ते र्यस्याः च यो यज्ञम् प्रयुङ्क्ते अदयनम् प्रतिष्ठापयते चेता द्वाधर्यवेज्ञम् प्रयुङ्क्ते देवाकालविदो घातुम् वित्त्वा घातुम् प्रयुङ्क्ते अदयनम् प्रतिष्ठापयते प्रतिष्ठतिप्रदयापशुभिजमानः यो वा यथा देवतम् यज्ञमुपचर्ये आ देवताः अभ्यपृष्टते पापीयान्भवते तो यथा देवदम् न देवताः व्यावृष्टते दे। वधीयान्भवते वारुणो वैवादः इमम् विश्याम् वरुणस्य वाचमित्याह वरुणवाजा देवैनाहा शपदप्रसोदो यथा देवनम् न देवदाभ्यावृष्टते दे। वसीयान्भवते धातुश्च यानो च पदस्य लवणैत्याह पुण्यङ्कर्मसुखदस्य लोकः अग्रे वेनाम् धाता पुण्यकर्मणि सुखदस्य लोकेन धाते श्रवणम् मे सहपत्या करोमीत्याह आत्मनश्चवियुशासम्प्रदे आशुरमेव पूर्णपात्रेष्टुभाः पूर्णपात्रे भवते अस्मिन् लोके प्रतितिष्ठाने अस्मिन्नेव लोके प्रतिष्ठते अथवाष्टके वाग्नम् आपणेतप्रजननम् एतस्मात्मिथनाद्विद्योतमानस्तनयन्परिहते एतश्चिन्तयन् प्रजाप्रजनयन् यद् यज्ञस्य ब्रह्मणा युज्यते ब्रह्मणा वेदस्य विमोकः ोर्णपात्रमायते एतगैवास्यानाम् प्रजान्तधाते प्रजयादिमनुष्यः पूर्णः मुखम् विमृष्टे अवृतस्यैव लोकम् कृत्वा तिष्ठते वा एषवनस्पतीनाम् ऋपवेशः एवम् वेद निन्दयपरिवेष्टानम् मनुष्येषु उपवेशमधारयन् हे अस्मदपदेत तानस्मभ्य विहाकुरु उपवेशोपविद्धिनः प्रजाम् वृत्त्यवशोधनम् द्विपदानश्च दुष्पदः ध्रुवान्पगान् कुर्वस्ताः प्रत्यन्तमुपगोहते तस्मात् पुरस्ताः प्रत्यन्तः पुरस्ता। श्रोद्रापस्यन्ति अप्रतिपादिन एव उपवेशः योगवेषु सा मोक्षभिः समर्मायप्रतन्ये निर्भाधेन हविः इन्द्रेण तिस्रः परावदः ईवम् जननागुम्बे तिस्राजिरो जना यावत् इन्द्रानयदवृत्रः पुनरायते श्रुतेभ्यस्तैनम् विद्ध्वा येभ्यो लोकेभ्यो निर्मद्य वज्रेण ब्रह्मणा श्रुते यन्दिश्या कन्ध्याये सुजयेन अर्पयते ओम् ब्रह्मणे ब्राह्मणमालभदे शब्दाय कालिन्यम् मरुद्भ्यवैश्यम् तमथे श्रोत्रम् तमसे तस्करम् नारकाय विरहणम् पात्मने क्लेपम् आक्रयाय योगो कामाय बुग्गुश्चलोम् अधिकृष्टाय मार्गधम् गीताय सूत्रम् नृत्ताय शैलोषम् धर्माय सुभागरम् धर्माय रथम् न विष्ठायै मलम् रसायकारम् आनन्दाय स्त्रेशखम् रुमुदे कुमारे पुत्रम् मेधायै रथकालम् धैर्याय दक्षाणम् श्रमाय कौलालम् मायायैकार्मारम् रोपायमणिकारम् शुभे भवम् श्रव्यायायिषु कालम् हे त्रिजन्वकारम् कर्मणैरज्याकारम् दुष्टाय रज्जसर्गम् प्रत्यवे मृगजम् अन्तकाय स्वनितम् सन्धये जालम् देहायपदिम् निरृत्ये परिवित्तम् आग्े परि विविधानम् अनाहापदिम् पवित्राय भिरजम् प्रज्ञानाय नक्षत्रदृशम् निष्कृत्यैपेदस्कारीम् पदाय पदाम् वर्णाय नोर्धम्भ्यः पौन् दिष्टम् शिक्षिकाभ्यो नैषादम् पुरुषव्याख्याहि सुर्मदम् प्रियेभ्य उन्मक्तम् गन्धर्वाप्सराभ्यो भ्रात्यम् सर्पदेवविनेभ्य प्रतिपदम् अवेभ्यक्तिदवम् व्यजाय अतितवम्भ्य विदवकारम् यादुषादेभ्यः कण्डककारम् उत्सादेभ्यः स्वप्नायान्धम् असन्माय पशिरम् सञ्ज्ञाय स्मरकारे कामात्याम् आशिक्षायै प्रश्निनम् उपशिक्षाया निःप्रश्निनम् मर्यादाय प्रश्नविभागम् प्रत्ययेत्ययन हृदयम् वैनहत्याय विशुनम् विविधये क्षत्तारम् औपद्रष्टाय सङ्ग्रहेतारम् बलाया भोम्ने अपरिष्कन्दम् प्रियाय प्रियवादिनम् अयष्ट्याश्वसादम् मेधाय वासः पत्पूले प्रकामाय लैत्र्ये भायेदानुवाहारम् प्रसाया आग्ने नागस्य पृष्ठायाभिषेक्तारम् रथस्य विष्णमाय मात्रयम् लेखम् देवलोकाय सर्वेभ्यो लोकेभ्योपसेर्तारम् अवर्ते पथायापसंकारम् स्वर्गाय लोकाय भागदुःखम् परिशिष्टाय नागाय परिवेष्टारम् हर्मेभ्यस्थितम् भवाया शुभम् पुष्टे गोपालम् तेजसेजपालम् वैर्यायापिम् इरायै केनाशम् केनागाय सुराकारम् भद्राय गृहम् श्रेयसे वित्तथम् अध्यक्षाया नक्षत्तारम् मन्यवेयस्तापम् क्रोधाय सदम् शोकायापि सदम् उत्कूलविकोलाभ्याम् त्रम् योगाय योत्तारम् क्षेमाय योगोत्तारम् वपुषेमानस्कृतम् शीलायाञ्जलेकारम् निरलिक्ते कोषकारी संवत्सराय परिचारणे परे वत्सराया विजाता यदावत्सरायापस्कद्वरे यद्वत्सरायातीपरे वत्सराय विषर्जरा सर्वान्सराय प्रयत्ने वनाय नभम् अन्यतोरण्यायधाम् सरोगाभ्यैवम् वेषन्ताभ्यो दाशम् उपस्थापनेभ्योऽभैन्दम् नद्वनाभ्यः सौष्कलम् वार्याय ये वक्तम् अपार्याय मार्गालम् तीर्थेभ्य आन्दम् विषमेभ्य मेहालम् स्वरेभ्यः पर्णकम् गुहाभ्यः किरादम् स्थानभ्य जम्भकम् पर्वतेभ्यख्यम् पौरुषम् प्रतिश्रुकायम् घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मोकम् महादेवेनावादम् क्रोशाय गुणवध्वम् न्दाय दन्तभ्याघातम् अपरस्पराय सङ्खध्वम् त्रिभुद्भ्यो जनसन्धायम् साध्येभ्यः समन्नम् बेभत्सायै पौल्कसम् भोक्तेजागरणम् अभोगरे स्वभनम् तुलायैवा निजम् कर्णाय हिरण्यकारम् सकंसाय प्रश्नम् अथायुग्लोपालभय वेदापालम् कनकम् धर्मायत्मङ्गम् पाणिशम् धातम् नृक्ताय मोहायम् आनन्दाय तलवम् अक्षराजाय लवम् कृतायतभाविनम् रेखायाजनदशनम् द्वापराय मिस्सदम् कलयेत स्थानम् दुष्कृतायलकाचार्यम् अध्वने ब्रह्मचारिणम् निर्दत्यैको घातम्भ्यान्तम् योगान् प्रसन्दन्तम् पाकम् सम्भ्यमाणवतिष्ठते भूम्ये पीठसर्पिणमालभजे अग्नयेगम् सलम् वायवेलम् अन्तरिक्षायिनम् शौर्याय हक्षम् चन्द्रमधे निर्गिणम् यक्षत्रेभ्यः किदासम् अन्ये शुक्लम् पिङ्गणम् रात्रे कृष्णम् पिङ्गाक्षम् पादे पुरुषमालभज प्राणवानम् यानवदायुगुन्दमानन्दानवे सौर्याय चुरालभजे पुनश्चन्द्रमधे दिग्भ्यम् प्रजापदये पुरुषम् अथेलानलोले हरितसमलेभ्यम् हरिकृषमत्यकुम्धलाम् हरिशुक्ल मधिकृष्णम् हरिसुलक्ष्ण मधि रामधाम् हरिरड हरिनन्दराम् हरिर्मेविम् आशायै रामे कुमारी ओ